हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीमद् वाल्मीकि रामायणे अयोध्याखण्डे एकोनविंशति अधिकशतम सर्गः अनुसूर्या देशेन सीताया सत्प्रदत्तानां दिव्यवस्त्रा भूषणानां धारणं कृत्वा श्रीरामस्य पार्श्वे गमनम् श्रीरामादीनां धात्रा आश्रमे स्थित्वा कातरन्यत्र गन्तुम् ऋषिभ्यो अनुज्ञाय ग्रहणम् अनसो या तु धर्मज्ञा श्रुत्वा तां महतीम् कथाम् पर्यैश्वजत बाहुभ्याम् शिरस्याघ्राय मैथिलीम् व्यक्ताक्षरपदम् चित्रम् भाषितम् मधुरम् त्वया यथा स्वयं तत्सर्वं च श्रुतं मया रमेयम् कथय धृढं मधुरभाषिणी सविरस्तं गत श्रीमान् उपोह्य रजनीम् शुभाम् दिवसम् परिकीर्णानाम् आहारार्थम् पतॄणाम् सन्ध्याकाले निलीनानाम् निद्रासं श्रूयते ध्वनि एते चाप्यभिषेकार्द्रा मुनये कलशोध्यत स्वहिता उपवर्तन्ते सलीलाः प्लुतवल्कलः अग्निहोत्रे चरुषिणा उते च विधिपूर्वकम् कपोताङ्गारुणो धूमो दृश्यते पवनोद्धतः अल्पवर्णा हि तरवो घनीभूता समन्ततः विप्रकृतेन्द्रिये देशे न वैदिशः रजनी चरसत्वानि प्रचरन्ति समन्ततः तपोवन मृगायेते वेदितीर्थे सुषेरते सम्प्रवृत्ता निशासीते नक्षत्र समलङ्कृता ज्योत्स्नाप्रावरणश्चन्द्रो दृशतेभ्यूदितोम्बरे गम्यताम् न जानामि रमस्य मधुरम् हम् अपि तोषिता अलङ्कुरु च तावत् त्वम् प्रत्यक्षम् मम सीतासुरसुतोपम प्रणम्य शिरसा पादौ रामं तु अभिमुखीयौ तथा तु भूषितां सीताम् ददर्श वदताम्बर राघवे प्रीतिदानेन तपस्विन्या जश्च नवेदय तत सर्वं सीतारामाय मैथिली प्रीतिदानं तपस्विन्या वसनभरणश्रयाम् प्रवृचस्तु अभवद्रामो लक्ष्मणश्च महारथ मैथिल्या सक्रियाम् दृष्ट्वा मानुषेषु सुदुर्लभाम् ततस्त शर्वरीम् प्रीते पुण्यां शैषी निभजनम् रचित तापसे सर्वै वा स रघुनन्दनः तस्याम् रात्र्याम् वितीतायाम् अभिषिच्य हुताग्निकान् आपृच्छेताम् वनगोचरान् तौ चुस्ते वनचर तापसः धर्मचारिणः वन्यस्य तस्य सञ्चारम् राक्षसै तमभिप्लुतम् रक्षासि पुरुषादानि नानारूपाणि राघव वसन्त्यस्मिन् धारण्ये व्यालश्च रुधिराशन उच्छिष्टम्ब प्रमत्तम्ब तापसं ब्रह्मचारिणम् अदन्त्यस्मिन् महारण्ये तान्निवारय राघवे एष पन्था महर्षीणां फलान्याहरतां वने अनेन तु वनं दुर्गम् गन्तुम् राघवते क्षमम् इति ऋतये प्राञ्जलिभिः तपस्विभिः विजयीकृत स्वत्ययन परन्तप वनं स प्रविवेश राघवे सलक्ष्मण सूर्यैव भ्रमण्डलम् इत्याख्ये श्रीमद् रामणे वाल्मीकि आदिकाव्ये अयोध्याकाण्डे एकोनविंशत्यधिकशतमः सर्गः अयोध्याकाण्डम् सम्पूर्णम् प्रीतीता रामचन्द्रार्पणमास्तु